हरि ओम् श्रीसीता रामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याखण्डे चतुस्त्रिंश सर्ग सीतालक्ष्मण सहितेन श्रीरामेण स श्रीगणस्य राज्ञे पार्श्वम् गत्वा वनवासायनुज्ञाय प्रार्थनम् राज्ञ शोको मूर्च्छा च श्रीरामेण तस्य सान्त्वनम् श्रीरामूर्ताश्लिष्य राज्ञो भूयो विसन्यताम् च ततः कमल पत्र श्यामो निरूप मोमः राम संसूतम् पितुराख्याहि मामिति स्वराम प्रेषित क्षिप्रम् सन्ताप कलुषेन्द्रियम् प्रविश्य नृपतिं सूतु विश्वसन्तं ददर्श हे उपरक्तम् इवादित्यम् भस्मच्छन्नमिव नलम् अपश्च जगति पतिम् अबोध्य च परमाय परमाकुलचेतनम् रामम् एव अनुरोचन्तम् सूत प्राञ्जलिरब्रवीत् तं वर्धयित्वा राजानम् पूर्वं सूतो जयाशिष वयविक्लवयावाच मन्दया श्लक्ष्मया ब्रवीत् अयं स पुरुषव्याघ्रौ द्वारि तिष्ठति ते सुतः ब्रह्मणेभ्यो धनम् दत्त्वा सर्वम् चैवोपजीविनाम् तत् त्वाम् पश्यतु भद्रम् ते रामश्चत्यपरक्रमः सर्वान् सुरूदापृच्छ गमिष्यति महरण्यम् तम् पश्य जगति पते घृतम् राजगुणैः आदित्यम् इव स सत्यवाको धरमात्मा गाम्भीर्यात् सागरूपमः आकाशे निष्पङ्को नरेन्द्र प्रत्युवाच तम् समन्त्रानयमे दाराम् एकेचिधि मामकः दारी परिवृत सर्वे द्रष्टुम् इच्छामि राघवम् स्वन्तपरम् अतीत्यैव श्रियस्था आर्योहयति वो राजा गम्यतां तत्र माचिरम् एवम् उक्तास्य सर्व सुमन्त्रेण नृपज्ञया पचक्रमो सद्भवनम् भक्तुराज्ञायशासनम् अर्धसप्तशतास्तत्र प्रमदा ताम्रलोचनः कौसल्यां परिवार्याथ शनै जग्मो धृतव्रतः आगतेषु च दारेषु समवेक्ष्य महीपतिः उवाच राजा तं सूतम् सुमन्त्रयमे सुतं सूतो राममादाय लक्ष्मणम् मैथिलीं तथा जगामाभिमुखतूर्णम् सकाशम् जगति पतेः स्वराजा पुत्र मायान्तम् उत्पातासन पूर्णम् आचस्त्री जनसंवृतः सोऽभिद्राववेगेन रामं दृष्ट्वा विशाम्पति तमसं प्राप्य दुःखात् पपात भुवि मूर्च्छितः सम्भ्रामोभ्यः पदक्षिप्रम् लक्ष्मणश्च महर्थः विसन्यम् इव दुःखेन स शोकं द्रुपतिं ीसहस्र निनाद च सञ्जन्ये राज भैष्मली हा हारामेति सहसार भूषण ध्वनिमिश्रितः तं परिष्वज्य बाहुभ्यां तौभौ रामलक्ष्मणौ पर्यङ्के सेतया साधं कृदन्तं समवेशयन् अथ लब्धसन्न्यम् महीपतिम् उवाच प्राञ्जलि वाजपे चोकर्णव वा परिपदम् अपृच्छे त्वाम् महाराज सर्वेषाम् ईश्वरोऽसिनः प्रस्थितम् दण्डकारण्यम् पश्य त्वम् कुशलेन माम् लक्ष्मणम् चानुजानीहि सीता चान्वेतु मां वनम् करणै तथे वार्यमाणो न चेच्छत अनुजानीहि सर्वान् शोकमुत्सृज्य मानद लक्ष्मणम् मां च सीतां च प्रयापयतीवात्मजान् प्रतीक्षमाणाम् अव्यग्रम् अनुद्याम् जगति पतेः उवाच राजा सम्प्रेक्ष्य वनवासाय राघवम् अहं राघव कैकय्या वरदाने न एवं मुक्तो अयोध्या नृपतिम धर्म भूतांबर पृथ्युवाचाजलि पीतर वाच गोविंद भाष सहसा पृथिव्याृपते पति अहम तरण्ये व्यामी न मेराज कांक्षिताय नव पञ्च वर्षाणि वनवासे भिद्यते पुनः पादो ग्रहीष्यामि पतिज्ञान्ते न राधिप हृदन् आर्तैः प्रियम् पुत्रम् सत्यपाशेन संयुतः कैकय्या कै चोद्यमानस्तु पिथो राजा तमब्रवीत् क्रियते वृद्धये तात् पुनरगमनायच गच्छ स्वादिष्टमव्यग्र पन्थानम् न कतो भयम् न हि सत्यात्मनस्तात् धर्माभि मनसस्तवः सन्निवर्तयितुम् शक्यते रघुनन्दन अद्यदानीम् रजनीम् पुत्र मा गच्छ सर्वथा एकाहं दर्शनेनापि साधु तावच्चराम्यहम् मातरम् मां च सम्पश्यन् वसे माम् मद्य शर्वरीम् तर्पित सर्वकामयत्वम् षट् काल्ये साधयिष्यसि दुष्करम् कृते पुत्र सर्वथा राघव प्रिय त्वया हि मत्प्रियार्थन्तु वनम् उपाश्रितं न चैतन्मे प्रियं पुत्र शपे सत्येन राघवे छन्नया स्त्रिया भ कल्पया वंचना या तो लब्धा तम निर्तर्च अनया वृत्त साोदी न चेतम येष्ठ सुतम अृत समुत्र पितरं कर्तम्छ अथ रादा पिता तस्षित लक्ष्मणेन स भ्रात्र दीनो वचनम् अब्रवीत् प्रार्थ्यामि यानद्य गुणान् कोमेश्वस्तान् प्रदास्यति अपक्रमाणमेवत् सर्वकामये ऋणे यं स राष्ट्रा समाकुल मया विसृष्टा वसुधा भरताय प्रदीयताम् वनवास कृता बुद्धिः न च मेद्य चलिष्यति यस्तु युद्धे वोदत् कैकय्यैव दत्तय कै कै दीयतां निखिलेनैव सत्यसम्भव पार्थिव अहं निदेशम् भवतु यसोक्तं अनुपालयन् चतुर्दश समावस्य वनैव न चरे सः मा विमर्शो वसुमति भरता न मे काङ्क्षितम् राजम् सुखं प्रियम् यथा निदेशं कर्तुं वै तदैव रघुनन्दन अपगच्छतु ते दुःखम् मा भूर्बाष्परिप्लुतः न हि क्षुभ्यति दूर्धश्च सुमुद्र सरिताम् पतिः नैवाहम् राजमिच्छामि न सुखम् न च मेदिनीम् नैव सर्वान् निमान् न स्वर्गम् न च जीवितुम् साम्रहम् सत्यमिच्छामि नानृतम् पुरुष शभ प्रत्यक्षम् तव सत्येन सुकृते न च ते शपे न च स्थातुम् क्षणपद्वि प्रभो स शोकम् धारय विपर्यय अर्थितो यस्मिकैकेय वनम् राघव मया चोक्तम् वृजामीति तत्सत्यम् अनुपालये माञ्चोत्कण्ठाम् कुथादेव वनेरन्स्यामहे वयम् प्रशान्त हरिणाकीर्णे न न शकुनिनादिति पिता हि दैवतम् तात् देवतानाम् अपि स्मृतम् तस्माद् दैवतमित्येव करिष्यामि पितुर्वचः चतुर्दशेषु वर्षेषु गतेषु नृपसतम् पुनर्द्रक्षसि मां प्राप्तम् सन्तापोऽयं विमोर्चताम् येन संस्थम् भनीयोऽयम् सर्वो वाच्यकलो जनः सत्त्वं पुरुषादूले किमर्थं विक्रियां गते पुरं च च मही च केवला मया विसृष्टा भरता यदि यताम् सह विदेशम् भवतोनुपालयन् वनं गमिष्यामि चिदाय मया विसृष्टाम् भर्तो मयि मीमाम् स शैलखण्डाम् स पुरोक्तम् शिवासु सीमासुनुषासु केवलम् त्वया यदुक्तम् नृपते तथा न मे तथा मनो महत्सु कामेषु न चात्मा न प्रिये यथा निदेशे तव शिष्टसम्मते व्यपयतु दुःखम् तव मत्कृते नगरे तदद्य नगराजमव्ययम् न सर्वकामान् वसुधां नमसिरिम् न चिन्तितं त्वामृतेन योजयन् वृणीय फलानि मूलानि च भक्षयन् वने गिरीश पश्यंसरित सरसि च वनं प्रविशैव विचित्रपादपम् सुखी भविष्यामि तवा सुनिवृत्ति एवं स राजा व्यसनाभिपन्न तापेन दुःखेन च पीड्यमार आलिङ्गपुत्रं सुविनश्च सन्ध्यो भूमिं गतो नैव चिकिञ्चित् देव्यसमस्ता ऋदुसमेता तं वर्जयित्वा नरदेव पत्नीं पृथन् सुमत्रो सुमन्त्रोऽपि जगन् मूर्छन् हा हा कृतं तत्र बभूव सर्वम् इत्याश्री श्रीमद् रामयै वाल्मीकि अधिकारे अयोध्याकाण्डे चतुस्त्रिंश सर्गः श्रीसीता रामचन्द्रार्पणमस्तु